सम्प्राप्तो मथुरम् विना दरि गमे तत्रान्तरस्मिन् रथन् आरामे निहिताशनः सखि जनै व्याप्त पुरी वीक्षितुम् प्रापो राजपतौ चिरश्रुति पृतौ व्यालोक कौतूकल स्त्रीपुंसोऽ तण्य पुण्य हरिगले नाकृष्यमाणो